अथ क्रमपाठे प्रथमकाण्डे चतुर्थः प्रश्नप्रारम्भः ओ आददे कृते ग्रावा ग्रावासि अस्य ध्वरकृते अध्वरकृद्देवेभ्यः दे अध्वरकृदित्यध्वरा कृते देवेभ्यो गम्भीरम् गम्भीरमिवम् इममध्वरम् अध्वरम् कृधि कृध्युत्तमेन उत्तमेन पविना उत्तमेनेत्युदत्तमेन पविनेन्द्राय इन्द्राय सोमम् सोमगुम् सुषुतम् सुषुतम् मधुमन्दम् सुषुतमिति सोसुतम् मधुमन्दम् पयस्वन्दम् मधुमन्दमिति मधुमन्तम् पयस्वन्दम् वृष्टिवनिम् वृष्टिवनिमिन्द्राय वृष्टिवनिमिति वृष्टेवनिम् इन्द्रायत्वावृत्रघ्ने वृत्रतुर इति वृत्रातुरे इन्द्रायत्वा त्वाभिमातिघ्ने अभिमातिघ्न इन्द्राय अभिमातिघ्न इत्यभिमातिघ्ने इन्द्रायत्वादित्यवते आदित्यवथ इन्द्राय आदित्यवथ इत्यादित्यावते इन्द्रायत्वाविश्वदे व्यावते विश्वदे व्यावते स्वात्राः विश्वदे व्यावत इति स्वात्रास्थ वृत्रतुरः वृत्रतुरो राधोगोर्ताः वृत्रतुर इति वृत्रातुरः राधोगोर्ता अमृतस्य राधोगोर्ता इति राघः अमृतस्य पत्नीः पत्नीस्ताः देवीः देवीर्देवत्रा देवप्रेमम् देवत्रेति देवात्रा इमम् यज्ञम् यज्ञम् भक्ता भक्तोपभूताः उपभूताः सोमस्य उपहूता इत्युपा हूताः सोमस्य पिबत पिबतोऽपहूतः उपहूतो युष्माकम् उपहूत इत्युपाहूतः युष्माकपुम् सोमः सोमः पिबतो पिबतु यत् यत्ते ते सोम सोमदिवि दिवि ज्योतिः यत ज्योतिर्यत् यदुरौ यत उरावन्तरिक्षे अन्तरिक्षे तेन तेनास्मै यजमानाय यजमानायोरुराया राया कृध्यधि अधिदात्रे दात्रे वोचः वोचो धिषणे धिषणे वीडू, धिषणे इति धिषणे वीडू सती वीडू इवीडू, वीडु सती वीडयेथाम् सती इति सती वीडयेथामूर्जम् ओर्जम् दधाथाम् दधाथामोर्जम् ओर्जम् मे मे धत्तम् धत्तम् वा िगुंसिषम् विगुम्सिषम् मा, मा, मा, मा हिगुंसिष्टम् रिगुंसिष्ठम् प्राग्पाक् प्राग अपागुदक् उदकधराग्धराग् उदक ताः तास्त्वा त्वादिशः दिशः आधावन्तो धावन्त्वम्ब अम्बनि ईश्वर स्वरेति स्वर ते सोम सोमादाभ्यम् अदाभ्यम् नाम नाम जागृवि जागृवि तस्मै तस्मै ते स्वाहे निःस्वाहा वाजस्पतगे पतगे पवस्व पवस्व वाजिन् वाजिन् वृषाः वृषा प्रपुंशुभ्यामित्युपुंशोभ्याम् गभस्तिभूतो देवः गभस्तिभूत इति कभस्तीभूतः देवो देवानाम् देवानाम् पवित्रम् पवित्रमसि असि येषाम् तेभ्यस्त्वा त्वा स्वाङ्कृतः असि मधुमतीः मधुमतीर्नः मधुमतीरिति मधुमतिः न इषः इषस्कृतिः कृतिविश्वेभ्यः विश्वेभ्यस्त्वा त्वेन्द्रियेभ्यः इन्द्रियेभ्यो देयेभ्यः दिव्येभ्यः पार्थिवेभ्यः पार्थिवेभ्यो मनः मनस्त्वा त्वाष्टो अष्टूरु उर्वन्तरिक्षम् अन्तरिक्षमनु अन्विः इ स्वाहा स्वाहा त्वा सुभवः सूर्याय सुभव इति सोभवः सूर्याय देवेभ्यः देवेभ्यस्त्वा त्वामरीचिपेभ्यः मरीचिपेभ्य एषः इति मरीचितेभ्यः एष ते ते योनिः योनिः प्राणाय प्राणाय त्वा प्राणायेति गृहीतः पस्यन्तः अन्तर्यच्छ यच्छ मघवन् मघवन् पाहि मघवन्निति मधावन् पाहि सोमम् सोममुदृष्य वृष्यराजः राजः सन् समिषः इषो यिरस्व यरस्वान्तः अन्तस्ते ये दधामि दधामिद्यावापृथिवी द्यावापृथिवी अन्तः द्यावापृथिवी इति द्यावा पृथिवी अन्तरु कुर्वन्तरिक्षम् अन्तरिक्षगुम् सजोषाः सजोषा देवैः सजोषा इति सा जोषाः देवैरवरैः अवरैः परैः परैश्च स्वान्तर्यामे अन्तर्यामे मघवन् अन्तर्याम इत्यन्तः यामे मघवन्मादयस्व मघवन्निति मघवन् मादयस्व स्वाङ्कृतः स्वाङ्कृतोऽसि असि मधुमतीः मधुमतीर्नः मधुमतीरिमधुमतीः न इषः इशा इषस्कृतिः कृधिविश्वेभ्यः विश्वेभ्यस्त्वा त्वेन्द्रियेभ्यः इन्द्रियेभ्यो दिव्येभ्यः दिव्येभ्यः पार्थिवेभ्यः पार्थिवेभ्यो मनः मनस्त्वा त्वा त्वाष्टो अष्टूरु अन्तरिक्षमनो अन्विः विः स्वाहा स्वाहा त्वा त्वा सुभव इति सोभवः सूर्याय देवेभ्यः देवेभ्यस्त्वा कामरीचिपेभ्यः मरीचिपेभ्य एषः मरीचिपेभ्य इति मरीचितेभ्यः एष ते ते योनिः आवायो वायोभूष वायो इति घूषशुचिपाः शुचिपा उप शुचिपा इति शुचिपाः उपनः मत्सहस्रम् सहस्रम् ते नियुता नियुता उपो उपो ते नियुतः नियुतो विश्ववार इति नियुतः विश्ववारेति विश्वार उपो उपो इत्युपोः ते अन्धः अन्धो मद्यम् मद्यमयामि नयामि यस्य यस्य देव देवदधिशे दधिषे पौर्वपेयमिति पूर्वपेयम् उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः असि वायवे वायवे त्वा त्वेन्द्रवायू इन्द्रवायु इमे इन्द्रवायु इतिन्द्रवायुः इमे सुताः सुता इति सुताः उप प्रयोभिरा प्रयोभिरिति प्रयःभिः गतमिति गमः इन्दवो वाम् वा मुशन्ति वृशन्तिः कीतिः उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः असीन्द्रवायुभ्याम् इन्द्रवायुभ्याम् त्वा इन्द्रवायुभ्यामितीन्द्रवायुभ्याम् त्वैषः एष ते ते योनिः योनिः सजोषाभ्याम् सजोषाभ्याम् त्वा सजोषाभ्यामिति स जोषाभ्याम् ेदित्वा अयम् वाम् त्वाम् मित्रावरुणा मित्रावरुणा सुतः मित्रावरुणेति मित्रावरुणा सुतः सोमः सोमवृतावृथा वृतावृधेत्रितावृथा ममेत् इदिह इह श्रुतम् श्रुतकम् हवम् गृहीतः असि मित्रावरुणाभ्याम् त्वा मित्रावरुणाभ्यामिति मित्रावरुणाभ्याम् त्वैषः एष ते ते योनिः योनिवृतायुभ्याम् व्रतायुभ्याम् त्वा व्रतायुभ्यामित्युदायोभ्याम् त्वेदित्वा या मधुमत्यश्विना मधुमतीति अश्विना सोनृतावती सोनृतावतीति सोनृतावती तया यज्ञम् यज्ञम् निमीक्षतम् निमीक्षतमिति निमीक्षतम् उपयाम गृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः अस्यश्विभ्याम् अश्विभ्याम् त्वा अश्विभ्यामित्यश्वीभ्याम् तैषः एष ते ते योनिः यो निर्माध्वीभ्याम् माध्वीभ्याम् ेदित्वा प्रातर्युजौ वि प्रातर्युजामिति प्रातः युजौ था, अश्विनावा एह इह गच्छतम् गच्छतमिति सोमस्य, सोमस्य पीतये पीतय उपयाम पीत गृहीतोऽसि उपयाम गृहीत गृहीतः अस्यश्विभ्याम् अश्विभ्याम् अश्विभ्यामित्यश्वीभ्याम् तैषः एष ते ते योनिः योनिरश्विभ्याम् अश्विभ्याम् त्वा अश्विभ्यामित्यश्वीभ्याम् तेति त्वा अयम् वेनः वेनश्चोदयत् चोदयत्प्रश्निगर्भाः प्रश्निगर्भाज्योतिजरायुः प्रश्निगर्भा इति प्रश्नीगर्भाः ज्योतिर्जरायुरजसः ज्योतिर्जरायुरिति रजसो विमानेः विमान इति विमानेः इममवाम् अपाकम् सङ्गमे सङ्गमे सूर्यस्य सङ्गम इति सङ्गमे सूर्यस्य शिशुम् शिशुम् न विप्राः विप्रा मतिभिः मतिभिरिहन्ति मतिभिरिति मतिभिः विहन्तीति विहन्ति वयामगृहीरोऽसि वयामग्रहीरयितुयाम गृहीतः असि षण्डाय षण्डाय त्वा एष ते ते योनिः योनिर्वीरताम् वीरताम् पाहि पाहिति पाहि तम् रत्नथा प्रत्नथा पूर्वथा पूर्वथा विश्वथा विश्वहेमथा इमथा ज्येष्ठदादिम् ज्येष्ठदादिम्बरिहिषतम् ज्येष्ठदादिमिति ज्येष्ठादादिम् बर्हिषतकम् सुवर्विदम् बर्हिषतमिति बर्हि सदम् सुवर्विदम् प्रतीचीनम् सुवर्विदमिति दोहसे दोहसे गिरा गिराशुम् आशुम् जयन्तम् जयन्तमनो अनुयासु यासु वर्धसे वर्धस गृहीतः असि मर्काय ैषः एष ते ते योनिः योनिः प्रजाः प्रजाः पाहि प्रजा इति प्राजाः पाहीति पाहि ये देवाः देवादिवि दिव्येकादश एकादशस्थ स्थपृथिव्याम् पृथिव्यामधि अध्येकादश एकादशस्थ स ते सदे ते देवाः देवायज्ञम् यज्ञमिमम् इमम् जुषध्वम् जुषध्वमुपयामगृहीतः उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः अस्याग्रयणः आग्रयणोऽसि असि स्वाग्रयणः स्वाग्रयणो जिन्व चिन्वयज्ञपतिम् यज्ञपतिमभि यज्ञपतिमिति यज्ञापतिम् अभिसवना सवना पाहि पाहि विष्णुः विष्णुस्त्वाम् त्वाम् पाहि पातुविषम् विषम् त्वम् त्वम् पाहि पाहि इन्द्रियेण इन्द्रियेणैषः एष ते यो ते योनिः योनिर्विश्वेभ्यः विश्वेभ्यस्त्वा त्वा देवेभ्यः उपयश्च त्र गणिनः गणिनो रुजन्तः ऋजन्तो दिवम् विभगुम् रुद्राः रुद्राः पृथिवीम् भीं, पृथिवीम् च त्र सजन्तेः सजन्त इति सजन्ते एकादशासो अप्सुषदः अप्सुषदः सोमम् सोमम् जुषन्दाम् सवनाय सवनाय विश्वेः विश्वे उपयाम यामगृहीत इत्युपयाम गृहीतः अस्याग्रयणः आग्रेणोऽसि असि साग्रयणो जिन्म स्वाग्रयेण इति सो आग्रेणः जिन्मयज्ञम् यज्ञम् जिन्म जिन्मयज्ञपतिम् यज्ञपतिमभि यज्ञपतिमिति यज्ञाप्रतिम् विष्णुः विष्णुस्त्वाम् त्वाम् पातु पातु बिषम् निषन् त्वम् त्वम् पाहि पाहि इन्द्रियेण इन्द्रियेणैषः एषते ते योनिः योनिर्विश्वेयेभ्यः देवेभ्यः देवेभ्य इति देवेभ्यः उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः असि इन्द्राय इन्द्राय त्वा त्वा बृहद्वदे बृहद्वदे वयस्वदे बृहद्वद इति बृहद्वदे वयस्वदमुक्थायुवे उक्थायुवे यत् उक्थायुवैत्युक्थायुवे यत्तेन्द्र इन्द्रबृहत् बृहद्वयः त्वयस्तस्मै तस्मै त्वा त्वा विष्णवे विष्णवे त्वा न्द्राय इन्द्राय त्वा त्वोर्थायुवे उत्थाय वैत्युर्थायुवे मोर्थानम् दिवः दिवो अरतिम् अरतिम् पृथिव्याः पृथिव्या वैश्वानरम् वैश्वानरमृताय जातमग्निम् अग्निमित्यग्निम् कविगुम् सम्राजम् सम्राजमतिथिम् सम्राजमिति सम्राजम् अतिथिम् जनानाम् जनानामासन् आसन् आपात्रम् पात्रम् जनयन्त जनयन्त देवाः देवा इति देवाः उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः अस्यग्नये अग्नये त्वा वैश्वानराय वैश्वानराय ध्रुवः ध्रुवोऽसि असि ध्रुवक्षितिः ध्रुवक्षितिर्ध्रुवाणाम् ध्रुवक्षितिरिति ध्रुवाक्षितिः ध्रुवाणाम् ध्रुवतमः ध्रुवतमोऽच्युतानाम् ध्रुवतम इति ध्रुवातमः अच्युतानामच्युतक्षित्तमः अच्युतक्षित्तम एषः अच्युतक्षित्तम इत्यच्युतक्षितेतमः एष ते ते योनिः योनिरग्नये अग्नये त्वा वैश्वानलाय वैश्वानलायेति वैश्वानलाय वधुश्च स माधवः माधवश्च यशुक्रः शुक्रश्च य शुचिः चलभः नभश्च प्रलभस्यः नभस्यश्च शेषः विशश्च शोर्जः ऊर्जश्च चषहः सहश्च चषहस्यः सहस्यश्च चतपः तपश्च चतपस्यः तपस्यश्च चोपयामगृहीतः उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम सकुंसर्पोऽसि सघुंसर्प इति संसर्पः अस्य गुंहस्पत्याय अगुंहस्पत्यायत्वा अगुंहस्पत्यायेत्यगुहप्रत्याय त्वेदित्वा इन्द्राग्नी आ इन्द्राग्नी इतीन्द्राग्नी आगतम् गतपुंसुतम् सुतम् गीर्भिः गीर्भिर्नभः नभो वरेण्यम् वरेण्यभिजिवरेण्यम् अस्य पातम् पातम् धिया धियेषिता विश्रेतीषिता उपयामगृहीतोऽसि उपयामगृहीत इत्युपयामा गृहीतः असीन्द्राग्निभ्याम् इन्द्राग्निभ्याम् त्वा इन्द्राग्निभ्यामितीन्द्राग्नीभ्याम् त्वैषः एष ते ते योनिः योनिरिन्द्राग्निभ्याम् इन्द्राग्निभ्याम् त्वा इन्द्राग्निभ्यामिति इन्द्राग्नीभ्याम् वेदित्वा ओमासश्चर्षणीधृतः चर्षणीधृतो विश्वे चर्षणीधृत इति चर्षणीधृतः विश्वे देवासः देवास आगत गतेति गत दाश्वापुंसो दाशुषः दाशुषः सुतम् सुतमिति सुतम् उपयाम गृहीतोऽसि उपयाम गृहीत इत्युपयाम गृहीतः असि विश्वेयेभ्यः विश्वेयेभ्यस्त्वा त्वा देवेभ्यः देवेभ्य एषः एष ते ये तेजोनिः ज्योतिर्विश्वेयेभ्यः देवेभ्यः देवेभ्य इति देवेभ्यः मरुत्पन्तम् वृषभम् वृषभम् वावृधानम् वावृधानमकवारिम् अकवारिम् दिव्यम् अकवारित्यकवारिम् दिव्यम् शासम् शासमिन्द्रम् इन्द्रमितीन्द्रम् विश्वासाहमवसे विश्वासाहमिति विश्वासाहम् अवसे नूतनाय नूतनायोग्रम् सहोदामिह सहोदामिति सहदाम् इह तम् तपुम् हुवेम भुवेमेति हुवेम उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः असीन्द्राय इन्द्राय त्वा त्वा मरुत्वदे मरुत्वद एषः एष इन्द्रा यत्त्वा मरुत्वते मरुत्वत इति मरुत्वते इन्द्रमरुत्वः पाहि पाहि सोमम् सोमम् यथा यथाशाते शार््याते अपि वः अपिबः सुतस्य तव प्रणीति प्रणीति तव प्रणीति प्रणीतिः तव शूरशर्मन् शर्मन्ना आविभासन्ति विभासन्ति कवयः कवयः सुयज्ञाः स्वयज्ञादिसु यज्ञाः उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः असीन्द्राय इन्द्रायत्वा मरुत्वदे मरुत्वद एषः एष ते ते योनिः योनिरिन्द्राय इन्द्रायत्वा मरुत्वदे मरुत्वद इन्द्र इन्द्रवृषभः वृषभो रणाय पिबा सोमम् सोममनुष्रथम् अनुष्रथम् मदाय अनुष्रथमित्रि नवधम् मदायेति आसिञ्चस्व सिञ्चस्व जठरे जठरे मध्वः मध्वूर्मिम् कूर्मिम् राजा राजासि असि प्रदिवः प्रदिवः सुतानाम् प्रदिव इति प्रादिवः सुतानामिति सुतानाम् वयामगृहीतोऽसि वयामगृहीलयाम गृहीलः इन्द्रायत्वा त्वा मरुत्वते मरुत्वत एषः एष यो निरिन्द्राय इन्द्रायत्वा त्वा त्वा मरुत्वते मरुत्वत इति मरुत्वते महागुमिन्द्रः इन्द्रो यः य इव वृष्टिमानिति वृष्टिमान् इवेतीव वत्सस्य वावृधे वावृथ इति वावृधे उपयामगृहीतोऽसि उपयामगृहीतैत्युपयामगृहीतः महेन्द्राय महेन्द्राय त्वा महेन्द्रायेति महा इन्द्राय एषः एषते ते योनिः योनिर्महेन्द्राय महेन्द्राय त्वा महेन्द्रायति महा इन्द्राय तेदि त्वा महाकुम् इन्द्रः इन्द्रो नृवत् नृपदा नृवदिति आचरषणिप्राः चरषणि उत चरषणि इति चरषणि प्राः उत द्विबर्हाः इति द्विबर्हाः अमिनः सहोभिः सहोभिरिति सहाभिः अस्मद्रियग्वावृधे अस्मद्रियगित्यस्माद्रियग् आवृधे वीर्याय वीर्यायोरुः उरुः पृथुः पृथुः कर्तृभिर्भोद् कर्तृभिरिति कर्तृभिः भोदिति भोद् उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः असि महेन्द्राय महेन्द्राय त्वा महा इन्द्राय त्वैषः एष ते तैयोनिः महेन्द्राय त्वा महेन्द्रायेति महा इन्द्राय स्वेदित्वा कदाचन शरस्तरीः स्तरीरसि असि नेन्द्र इन्द्रषष्ठसि षष्ठसि दाशुषे दाशुष इति दाशुषे उपोपेत् उपोपेत्युप उप इन्नो नु मघवन् मघवन्भूयः मघवन्निति मघवन् भूयत् इन्नो नृते ते, ते दानम् दानम् देवस्य देवस्य पृच्छते पृच्छ्यत इति पृच्छ्यते उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः अस्यादित्येभ्यः आदित्येभ्यस्त्वा त्वेतित्वा कदाचन च प्रयुच्छसि युच्छस्युभे उभेनि उभे इत्युभे निपासि जन्मनि जन्मनि इति जन्मनि तुली आदित्य आदित्यसवनम् सवनम्बे इन्द्रियम् इन्द्रियमा आतस्थौ तस्थावमृतम् अमृतम् दिवि दिवीति दिवि दिवी, यज्ञो देवानाम् देवानाम् प्रति प्रत्येति एति सुम्नम् सुम्नमादित्यासः आदित्यासो भवता भवता प्रणयन्दः प्रणयन्त आवह वोर्वाची अर्वाची सुमतिः सुमतिर्ववृत्यात् सुमतिरिति सुमतिः प्रवृत्त्याद्बुहोः प्रगुम्भोश्चित् शिद्या या वरिभो वित्तरा वरिभोवित्तरासत् वरिभोवित्तरेति वरिभोवित् तराः असदित्यसत् विवस्व आदित्य आदित्यैषः एष ते ते सोमपीठः सोमपीठस्तेन सोमपीठ इति सोम पीथः तेन मन्दस्व मन्दस्वतेन तेन तृप्या तर्पयिता लो या या दिव्या दिव्या वृष्टिः वृष्टिस्तया तया हा श्रेणामि अद्य सवितः सवितर्वामम् वाममो उषा श्वो दिवेदिवे दिवेदिवे वामम् दिवेदिव इति दिवे दिवे पाममस्मभ्यम् अस्मभ्यमम् सावीः अस्मभ्यमित्यस्माभ्यम् सावीरिति सावीः पामस्य हि हि क्षयस्य क्षयस्य देव देव भूरेः भूरे रया रया धिया धिया वामभाजः पामभाज श्याम श्यामेति श्याम उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः असि देवाय देवाय त्वा त्वा सवित्रे सवित्र इति सवित्रे अदब्धेभिः सवितः सवितः पायुभिः पायुभिष्वम् पायुभिरिति पायुभिः त्वम् शिवेभिः शिवेभिरद्य रद्य परि परिपाहि पाहिणः गोगयम् गयमिति हिरण्यजिह्व इति हिरण्यजिह्वः सुविताय नव्यसे नव्यसे रक्ष रक्षा माकिः माकिर्णः नो अर्हशगुंसः अर्घशगुंस ईषद अघशकुंस इत्यघाशुंसः ईशतेतीशत उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः असि देवाय देवाय सवित्रे सवित्र इति सवित्रे हिरण्यपाणिमूतये हिरण्यपाणिमिति हिरण्यपाणिम् ऊतये सवितारम् सवितारमुप उपह्वये ह्वज इति ह्वये स चेत्ता चेत्ता देवता देवता पदम् पदमिति पदम् उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः असि देवाय देवाय त्वा त्वा सवित्रे सवित्र इति सवित्रे सुषर्मासि सुषर्मेति सुषर्मा असि सुप्रतिष्ठानः बृहदुक्षे उक्षे नमः नम एषः एष ते तेजोनिः योनिर्विश्वेयेभ्यः विश्वेयेभ्यस्त्वा बृहस्पतिसुतस्यते बृहस्पतिसुतस्येति बृहस्पतिसुतस्य त इन्दो इन्दो इन्द्रियावतः इन्दो इति इन्दो इन्द्रियावतः पत्नीवन्तम् इन्द्रियावत इति इन्द्रियावतः पत्नीवन्धम् ग्रहम् पत्नीवन्धमिति पत्नीवन्तम् गृहम् गृह्णामि गृह्णाम्यग्ना ग् पत्नी पत्नीवा, परत्नी वा सजोः परत्नी इति पत्नी वा सजोर्देवेन सजोरिति स जोः रे न त्वष्ट्रा त्वष्ट्रा सोमम् सोमम् पिब पिब स्वाहा स्वाहेति स्वाहा हरिरसि असि हारियो जनः हारियोजनो हर्योः हारियोजन इति स्थाता वज्रस्य वज्रस्य भर्ता भर्ता कृष्णेः कृष्णेः प्रेता प्रेता तस्य तस्य ते ते देव देवसोम सोमेष्टैदुषः इष्टैदुषस्तुतस्तोमस्य इष्टैदुषैधीष्टायदुषः श्रुतस्तोमस्य शस्तोर्थस्य स्तुतस्तोमस्येति स्तुतः स्तोमस्य शस्तोधस्य हरिवन्तम् शस्तोथस्येति शस्ता उर्थस्य हरिवन्तम् ग्रहम् हरिवन्तमिति हरिवनुपम् ग्रहम् गृह्णामि गृह्णामि हरियोर्धानाः धानाः सहसोमाः सहसोमा इन्द्राय सहसोभा इति सः इन्द्राय स्वाहा स्वाहेति स्वाहा अग्नायोगुंषि आयोगुंषिपभसे अपवसा आसुव सुवोर्जम् वोर्जमिषम् इषम् च नः नैलिनः आरे बाधस्व बाधस्व दुच्छुना दुच्छुनामिति दुच्छुना <sm> उपजामगृहीतोऽसि उपयामगृहीत इत्युपयामगृहीतः अस्यग्नये अग्नये त्वा पादेन स्वते तेजस्वत एषः एषतेः तेजोनिः योनिरग्नये अग्नये त्वा पादेन स्वते तेजस्वत इति ओजसा सः सः पीत्वा पीत्वा क्षिप्रे अवेपयः शिप्रे इति क्षिप्रे अवेपय इत्यवेपयः सोममिन्द्र इन्द्रचमू चमू सुतम् चमू इति चमो सुतमिति सुतम् उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः असिन्द्राय इन्द्राय त्वा फोजस्वते एष ते ते इन्द्रायत्वा ओजस्वते ओजस्वत तरणिर्विश्वदर्शदः विश्वदर्शदो ज्योतिष्कृत विश्वदर्शद इति विश्वदर्शदः ज्योतिष्कृतसि ज्योतिष्कृदिति असि सूर्य सूर्येति सूर्य विश्वमा आभासि भासि रोचनमिति रोचनम् उपयाम उपयाम गृहीत इत्युपयाम गृहीतः असि सूर्याय सूर्यायत्वाभ्राजस्वते भ्राजस्वत एषः एष ते ते योनिः आप्यायस्व ध्यायस्व मदिन्तम मदिन्तमसोम सोमविश्वाभिः कोतिभिरित्योतिभिः भवानः न सप्रथस्तमः सप्रथस्तम सप्रथः तमः ईयुष्टे ते ये ये पूर्वतराम् पूर्वतरामपश्यन् पूर्वतरामिति पूर्वातराम् अपश्यन् युच्छन्तीम् युच्छन्तीमुषसम् युच्छन्तीमिति वि उच्छन्ती उषसम् मर्त्या सह मर्त्यास इति प्रतिदक्ष्या प्रतिदक्ष्या भूत् प्रतिदक्ष्येति प्रतिदक्ष्या अभूदो ओ ते हो इत्यो ते यन्ति यन्ति ये ये अपरीषु अपरीषु पश्यान् पश्यानिति पश्यान् ज्योतिष्मतीम् त्वा साधयामि साधयामि ज्योतिष्कृतम् ज्योतिष्कृतम् त्वा ज्योतिष्कृतमिति ज्योतिः त्वा साधयामि साधयामि ज्योतिर्विदम् ज्योतिर्विदम् त्वा ज्योतिर्विदमिति ज्योतिःविदम् त्वा साधयामि साधयामि भास्वरीम् भास्वरीम् त्वा त्वा साधयामि साधयामि ज्वलन्तीम् ज्वलन्तीम् त्वा साधयामि साधयामि मन्मला भवन्तीम् मन्मला भवन्तीम् मन्मला भवन्तीमिति मन्मला भवन्तीम् त्वा दीप्यमानान् त्वासादयामि साधयामि रोचमानाम् रोचमानान्त्वा त्वासाधयामि साधयाम्यलस्राम् अलस्राम् त्वासाधयामि साधयामि बृहज्योतिषम् बृहज्ज्योतिषम् त्वा बृहज्ज्योतिषमिति बृहद् ज्योतिषम् त्वासाधयामि साधयामि बोधयन्तीम् बोधयन्तीम् त्वासादयामि साधयामि जागृतीम् जाग्रतीम् त्वा सादयामि साधयामीति साधयामि प्रयासाय स्वाहा प्रयासायेति प्रायासाय स्वाहायासाय आयासाय स्वाहा आयासायेत्या यासाय स्वाहावियासाय वियासाय स्वाहा वियासायेति वीयासाय स्वाहा सञ्ज्ञासाय सञ्ज्ञासाय स्वाहा सञ्ज्ञासायेति सञ्ज्ञासाय स्वाहो ध्यासाय उद्यासाय स्वाहा उद्यासायेत्युद् व्यासाय स्वाहावयासाय अवयासाय स्वाहा अवयासायत्यवयासाय स्वाहा शुचे शुचे स्वाहा स्वाहा शोकाय स्वाहा स्वाहा तप्यत्वै स्वाहा स्वाहा तपदे तपदे स्वाहा स्वाहा ब्रह्महत्यायै ब्रह्महत्यायै स्वाहा ब्रह्महत्याया ब्रह्महत्यायै स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा चित्तकम् सन्तानेन सन्तानेन भवम् सन्तानेनेति सन्तानेन भवम् यत्ना यत्ना रुद्रम् रुद्रम् तनिम्ना तनिम्ना पशुपतिम् पशुपतिग्निस्थूलहृदयेन पशुपतिमिति पशुपतिम् स्थूलहृदयेनाग्निम् स्थूलहृदयेनेति स्थूलहृदयेन अग्निकम् हृदयेन हृदयेन रुद्रम् रुद्रम् लोहितेन लोहितेन शर्वम् सर्वम् मतस्माभ्याम् मतस्नाभ्याम् महादेवम् महादेवमन्दःपार्श्वेण महादेवमिति महादेवम् अनन्तस्पार्श्वेन औषिष्ठहनम् अनन्तःपार्श्वेनेत्यन्तः आतिष्ठा तिष्ठवृत्रहन् वृत्रहन् रथम् वृत्रहन्निति वृत्राहन् रथम् युक्ता युक्ता ते ते ब्रह्मणा ब्रह्मणा हरी हरि इति हरी अर्वाचीनपुंसु सुते ते मनः मनो ग्रावा ग्राम कृणोतु कृणोतु वग्नुना वग्नुनेति वग्नुना उपयाम गृहीतोऽसि उपयाम गृहीत इत्युपयामा असीन्द्राय इन्द्रायत्वा षोडशिने षोडशिन एषः एष ते ते योनिः षोडशिने इति षोडशिने इन्द्रमिद इद्धरी हरी वहतः हरी इति हरी वहतोऽप्रतिधृष्टशवसम् अप्रतिधृष्टशवस ऋषीणाम् अप्रतिधृष्टशवसमित्यप्रतिधृष्टा शवसम् ऋषीणाम् च स्तुतीः स्तुतीरुप उपयज्ञम् यज्ञम् च शमानुषाणाम् मानुषाणामिति मानुषाणाम् उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः असीन्द्राय इन्द्राय त्वा षोडशिनेः इन्द्रायत्वा षोडशिने षोडशिन इति षोडशिने असावि सोमः सोम इन्द्र इन्द्रते ते शविष्ठ सविष्ठधृष्णो धृष्णवा आ गहि गहिति गहि आ त्वा त्वा, त्वा प्रणक्तो पृणक्तिन्द्रियम् इन्द्रियमुम्रजः रजः सूर्यम् सूर्यम् न रश्मिभिः उपयामगृहीतोऽसि उपयामगृहीत इत्युपयामा गृहीतः असीन्द्राय इन्द्राय त्वा त्वा षोडशिने षोडशिन एषः एष ते यो निरिन्द्राय इन्द्राय त्वा षोडशिने सर्वस्य प्रतिशीवरी प्रतिशीवरी भूमिः प्रतिशीवरीति प्रतिशीवरी भूमिस्त्वा सोपस्थे उपस्था उपस्थ इत्युपास्थे आधिक अधिकेत्यधित यो अस्मै सुषदा सुषदा भव सुषदेति सुसदा भवेच्छ यच्छास्मै अस्मै शर्म शर्म सप्रथाः सप्रथा इति स प्रथाः उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः असि इन्द्राय इन्द्रायत्वा त्वा त्वा षोडशिनेः षोडशिन एषः एष ते ते योनिः इन्द्रायत्वा त्वा षोडशिन इति षोडशिने महाकुम् इन्द्रो वज्रबाहुः वज्रबाहुः षोडशी वज्रबाहुरिति वज्राहुः षोडशी शर्म शर्म यच्छतु यच्छत्विति मघवा करोतु मघवेति मघवा करोतु हन्तु हन्तु पाप्मानम् ोऽस्मान् अस्मान्द्वेष्टि द्वेष्टिति द्वेष्टि उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः असि इन्द्राय इन्द्राय त्वा त्वा षोडशिनेः षोडशिन एषः एष ते ले ते योनिः योनिरिन्द्राय इन्द्रायत्वा षोडशिने षोडशिण इति षोडशिणेः सजोषा इन्द्र सजोषा इति सा जोषाः इन्द्रसगणः सगणो मरुद्भिः सगण इति सागणः मरुद्भिः सोमम् मरुद्भिरिति मरुतर्हि सोमम् पिब पिब वृत्रहन् वृत्रहन् शूर वृत्रहन्निति वृत्राहन् शूरविद्वान् जय शत्रूले शत्रूपुम्र अपमृधः मृधो लृदस्व मुदस्वाथ अथाभयम् अभयम् तृणहि कृणहि विश्वतः विश्वतो नः नैतिलः उपयामगृहीतोऽसि उपयामगृहीत इत्युपयाम गृहीतः असीन्द्राय इन्द्राय त्वा त्वा षोडशिने षोडशिन एषः एष ते ले इन्द्रायत्वा प्रा षोडशिने षोडशिन इति षोडशिने उधु उत्यन्त्यञ्जातवेदसम् जातवेदसम् जात देवम् जातवेदसमिति जातावेदसम् देवम् वहन्ति केतवः वा, केतव इति केत विश्वाय विश्वाय सूर्यम् सूर्यमिति सूर्यम् चित्तम् देवानाम् देवानामुत् उदगाद् अगादनीकम् अनेकम् चक्षुः चक्षुर्मित्रस्य मित्रस्य वरुणस्य वरुणस्याग्नेः अग्नेरित्यग्नेः आप्राः अप्राद्यावापृथिवी द्यावापृथिवी अन्तरिक्षम् द्यावापृथिवी द्यावापृथिवी अन्तरिक्षकम् सूर्यः सूर्य आत्मा आत्मा जगतः जगतस्तस्थुषः तस्थुषश्च चेति च अग्ने नय नय सुमथा सुमथा राये सुमथेति सुमथा राये अस्मान् अस्मान् विश्वानि विश्वानि देव देववजुनानि वजुनानि विद्वानिति विद्वान् ययोध्यस्मद् अस्मज्जुहुराणम् जुहुराणमेनः येनो भूयिष्ठाम् ते नमो उक्तिम् विधेम नमो उक्तिमिति नमः उक्तिम् विधेमेति दिवम् गच्छ गच्छसु वः सुवः पद पदरूपेण रूपेण वः वो रूपम् रूपमभि अभ्या अयमि एमिवयसा पयसा वयः पय इति वयः रुथो वः वो विश्ववेदाः विश्ववेदावि विश्ववेदा इति विश्ववेदा विश्ववेदाः विभजतु भजतु वरिष्ठे वरिषिष्ठे अधि अधिनाके नाक इति नाके एतत्ते ते अग्ने अग्ने राधः राधा इति सोमच्युतम् सोमच्युतम् तत् सोमच्युतमिति तन्मित्रस्य मित्रस्य पथा पथा नय नयर्तस्य रतस्य पथा पथा प्रेत चन्द्रदक्षिणाः चन्द्रदक्षिणा यज्ञस्य चन्द्रदक्षिणा इति चन्द्रदक्षिणाः यज्ञस्य पथा पथः सुविता सुविता नयन्तीः नयन्तीर्ब्राह्मणम् ब्राह्मणमद्य अद्यराध्यासम् आध्यासमृषिम् ऋषिमारुषेयम् आरुषेयम् पितृमन्तम् पितृमन्तम् पैतृहत्यम् पितृमन्तमिति पितृमन्तम् पैतृहत्यपुं सुधातु दक्षिणम् पैतृमत्यमिति पैतृमत्यम् सुधातु दक्षिणम् वि सुधातु दक्षिणमिति सुधातु दक्षिणम् विसुवः सुवः पश्य पश्य वि व्यन्तरिक्षम् अन्तरिक्षम् यतस्व यतस्व अस्मद्दात्रा देवत्रा अस्मद्दात्रा इत्यस्मत् दात्राः देवत्रागच्छत एवत्रेति देवात्रा गच्छत मधुमतीः मधुमतीः प्रदातानम् मधुमतीरिति मधुमतीः प्रदातारमा प्रदातारमिति प्रदातारम् आविशत विशदानवहाय अनवहायास्मान् अनवहायेत्यनवाहाय अस्मान् देवयानेन देवयानेन पथा देवयानेनेति देवायानेन पथेत इद सुकृताम् सुकृताम् लोके सुकृतामिति सुकृताम् लोके सीदत सीदततत् तन्नः नः सर्गस्कृतम् सर्गस्कृतमिति धाता रातिः रातिः सविता सवितेदम् इदम् जुषन्ताम् जुषन्ताम् प्रजापतिः प्रजापतिर्निधिपतिः प्रजापतिरिति प्रजापतिः अग्निरित्यग्निः त्वष्टा विष्णुः विष्णुः प्रजया प्रजया सगुम्बराणः प्रजयेरि प्राजया सगुम्बराणो यजमानाय सगुम्बराण इति सम्राणः यजमानाय द्रविणम् द्रविणम् दधातो दधाद्विति दधातो समिन्द्र इन्द्रणः नो मनसा मनसा नेषि नेषि योभिः नोभिः सूरिभिरिति सूरिभिः मघवन् सन् मघवन्निति मघान् सर्गः स्वस्त्या स्वस्त्येति स्वस्त्या सम्ब्रह्मणा ब्रह्मणा देवकृतम् देवकृतम् यत् देवकृतमिति देवा कृतम् यदस्ति अस्ति सम् सम् देवाना देवानागुम् सुमत्या सुमत्या यज्ञियानाम् सुमत्येति सुमत्या यज्ञियानामिति यज्ञियानाम् संवर्चसा वर्चसा पयसा पयसासम् सम् तनोभिरगन्महि भी, तनो अगन्महि मनसा मनसासम् सगुं शिवेन शिवेनेति शिवेन पृष्टानः नो अत्र अत्र वरिवः अनुमार्ष्टो मार्ष्टुतनुवः अनुभो यत् यद यद्विलिष्टम् विलिष्टमिति विलिष्टम् यदद्य अद्य त्वा प्रयति प्रयति यज्ञे प्रयतीति प्रयति यज्ञे अस्मिन् अस्मिन्नग्नेः अग्ने होतारम् होतारमवृणीमहि हो अवृणीमहीह इहेतिह ऋथगयाट् अयाडृथक्ृथगुत हुताशमिष्ठाः अशमिष्ठाः प्रजानन् प्रजानन् यज्ञम् प्रजानन् इति प्रजानन् यज्ञमुप उप याहि याहि स्वगावः स्वगेति स्वगा स्वगे वो देवाः देवाः सदनम् सदनमकर्म अकर्म ये या आजग्म समना आजग्मेत्या जग्म समनेदम् इदञ्जुषाणाः जुषाणा इति जुषाणाः यक्षिवागुंसः पविवागुंसः पविवागुंसश्च च विश्वे विश्वेऽस्मे अस्मे धर्त अस्मे इत्यस्मे धर्त वसवः वसवो वसूनि वसूनि दिवसूनि याना आवह वृषभः ऋषभो देव देवदेवान् देवा देवान्तान् तान् प्रेरय ईरय श्रे अग्ने अग्ने सधस्थे सधस्थ इति सधास्थे वहमाना भरमाणाः भरमाणा हवीगुंषि हवीगुंषि वसुम् वसुम् घर्मम् घर्मम् दिवम् दिवमा आतिष्ठत तिष्ठता नो अन्वित्यनु यज्ञयज्ञम् गच्छ गच्छयज्ञपतिम् यज्ञपतिम् गच्छ यज्ञपतिमिति यज्ञापतिम् गच्छस्वा स्वायोनिम् योनिम् गच्छ गच्छस्वाहा स्वाहैषः एषते ते यज्ञः यज्ञो यज्ञपते यज्ञपते सहसोक्तवाकः यज्ञपत इति यज्ञापते सहसोक्तवाकः सुवीरः सहसोक्तवाक सुवीरस्वाहा सुवीर इति सुवीरः देवाघातुविदः गातुविदो घातुम् गातुविद इति घातुविदः गातुम् वित्त्वा गातु गातु गातु वित्त्वा घातुम् गातुमिद इत मनसः मनसस्पते पर स्वाहा स्वाहा वाचि वाचि स्वाहा धा इति धाः रुगुंहि राजा वरुणः वरुणश्चकार चकारसूर्याय सूर्याय पन्थाम् पन्थामन्वेतरै अन्वेतवाहुः अन्वे तवा अन्वे इत्यनु एतवै उवित्यु अपदे पादाः पादाप्रतिधातवे प्रतिधातवेकः प्रतिधातव इति प्रतिधातवेः उतापवक्ता पत अपवक्ता अपवक्तेत्यपवक्ता हृदयाविधश्चित् हृदया विध इति हृदया विधः चिदिति चित चीद शतन्ते ते राजन राजन धिषलः धिषलः सहस्रम् सहस्रमुर्वी उर्वी गम्भीरा गम्भीरा सुमतिः सुमतिष्टे सुमतिरिति सुमतिः ते असौ अस्वित्यस्तु बाधस्वद्वेषः देशो निरलितिम् निरलतिम् पराचैः निरलतिमितिनिःलतिम् पराचैः कृतम् प्रदं, कृतञ्चित् चिरेनः एनः प्रममुग्धि ममुग्ध्यस्मद् अस्मदित्यस्मत् अभिष्ठितो वरुणस्य अभिष्ठित इत्यभीस्थितः वरुणस्य पाशः पाशोऽग्नेः अग्नेरनीकम् अनीकमपः अप आविवेश विवेशेति विवेश अपान्नपाद नपात् प्रतिरक्षन् प्रतिरक्षन्न सूर्यम् प्रतिरक्षन्निति प्रतिरक्षन् असुर्यम् दमे दमे दमे दमे समिधम् दमे दम इति प्रतिते ते जिह्वा जिह्वा घृतम् घृतमुत् उच्चरण्येत् समुद्रे ते ते हृदयमप्सो अप्सन्तः अप्स्वित्यपोऽसु अन्तरित्यन्तः सन्त्वाः त्वाविशन्तो विशन्तोषधीः ओषधीरुता उतापः आपो यज्ञस्य यज्ञस्य त्वायज्ञपते यज्ञपते हविर्भिः यज्ञपत इति यज्ञापते हविर्भिरिति हभिः सूक्तवाके नमो वाके सूक्तवाक इति सूक्तवाके नमोवाके विधेम नमो इति नमः वाके विधेमावभृथ अवभृष निजङ्कुण अवभृतेऽद्यवाभृथ विचङ्कुण निषेरुः विचङ्कुणेति नीचङ्कुण निचेरुरसि निचेरुरिति नीचेरुः निचङ्कुण निचङ्कुणाव निचङ्कुणेति नीचङ्कुण अवदेवैः देवैर्देवकृतम् देवकृतमेनः देवकृतमिति देवाकृतम् एनो यार् अयाडव अवमर्त्यैः मर्त्यैर्मर्त्यकृतम् मर्त्यकृतमुरोः मर्त्यकृतमिति मर्त्याकृतम् पुरोधा आ नः नो रिषः पाहि पाहि सुमित्राः सुमित्रा नः सुमित्रा इति सुमित्राः सुमित्रा, न आपःपवोषधयः ओषधयः दुर्मित्राः दुर्मित्रास्तस्मै दुर्मित्रा इति मित्राः तस्मै भूयासुः भूयासुर्यः योऽस्मान् अस्मान्द्वेष्टि द्वेष्ट्यम् किञ्च वयम् वयम् विष्मः विष्मो देवीरापः आपवेशः एषवः वो गर्भः गर्भस्थम् तम्बः वः सुप्रीतम् सुप्रीतमिति सुप्रीतम् सुभृतमकर्म सुहृतमिति सोभृतम् अकर्म देवेषु देवेषु नः नः सुकृतः सुकृतोऽभ्रूताद् सुकृत इति सुकृतः ब्रूतात्प्रतियुतः प्रतियुतो वरुणस्य प्रतियुत इति प्रतीयुतः वरुणस्य पाशः पाशः प्रत्यस्तः प्रत्यस्थो वरुणस्य प्रत्यस्त इति प्रदी पाशः पाश एधः एधोऽसि अस्येधिषीमहि एधिशीमहि समित् समिदसि समिदी सम् इत् असितेजः तेजोसि ते असितेजः तेजोमयि ते मयिधेहि धेश्यवः रसे नसम् समसृक्ष्महि असृक्ष्महीत्यसृक्ष्महि पयस्वागम् अग्ने अग्ना आगमम् अगमन्तम्मा वासम् सगुंसृज सृजवर्चसा वर्चसे दिवर्चसा यस्त्वा त्वा हृदा हृदाकीरिणा कीरिणा मन्यमानः मन्यमानोऽ मर्त्यम् अमर्त्यम् मर्त्यः मर्त्यो जोहवीमि जोहवीमि जिजोहवीमि जातवेदो यशः जातवेद इति जातावेदः यशो अस्मासु अस्मासु धेहि धेहि प्रजाभिः प्रजाभिरग्ने प्रजाभिरिति प्राजाभिः अग्ने प्रजा प्रजा प्रजा अमृतत्वम् अमृतत्वमस्याम् अमृतत्वमित्यमृतात्वम् अस्यामित्यस्याम् त्या यस्मै त्वम् त्वं सुकृते सुकृते जातवेदः सुकृत इति सुकृते जातवेद उ जातवेद इति जातावेदः लोकमग्ने अग्ने तृणवः कृणवः स्योलम् स्योलमिति स्योलम् अश्विनगुंसः स पुत्रिणम् पुत्रिणम् वीरवन्तम् वीरवन्तम् गोमन्तम् वीरवन्तमिति वीरवन्तम् गोमन्तकम् रयिम् नशते स्वस्ति स्वस्तीति स्वस्ति त्वे कामकात कामकात कामकात नत्वा रिच्चते। रिच्चते इति त्रे सुपुत्र पुत्रशवसः शवसो वृत्रन् अवृत्रम् कामकातयः कामकातय इति कामकातयः न त्वाम् त्वामिन्द्र इन्द्रादि सोमः उक्थ इत्युक्थे उक्थे सोम इन्द्रम् इन्द्रम् ममाद नीथे नीथे नीथे नीथे नीथ इति नीथे नीथे मघवानगुम् सुदासः मघवानमिति मघवानम् सुदास इति सुदासः यदीम् इगम् सबाधः स बाधः पितरम् स बाध इति स समानदक्षाः समानदक्षावसे समानदक्षा इति समानादक्षाः अवसे हवन्ते हवन्त इति हवन्दे अग्ने रसेन रसेन तेजसा तेजसा जातवेदः जातवेदो वि जातवेद इति जातवेदः विरोचसे रोचस इति रोचसे रक्षोहामीव चातनः रक्षोहेति रक्षाः अमीव चातन इत्यमीव चातनः अपो अनु अन्वचारिषम् अचारिषम् रसेन रसे रसम् समसृक्ष्णहि असृक्ष्णीत्यसृक्ष्णहि पयः स्वागम् अग्ने अग्ना आगमम् अगमन्तम्मा वासम् सर्वं सृजा सृजवर्चसा वर्चसेदि वर्चसा वसुर्वसुपतिः वसुपतिरिवम् वसुपतिरिदिवसुपतिः हि तमसि अस्यग्ने अग्ने विभावसुः विभावसुरिति विभावसु श्यामते ते सुमतौ सुमतावपि सुमताविदि सुमतौ अपीत्यपि त्वामग्ने अग्ने वसुपतिम् वसुपतिम् वसूनाम् वसुपतिमिति वसुपतिम् वसूनामभि रति वसु वसु वसु अभिप्रा प्रवन्दे वन्दे अध्वरेषु अध्वरेषु राजन् राजन्नि राजन् त्वया वाजम् वाजम् वाजयन्तः वाजयन्तो वाजयन्दैरि वाजायन्तः ये वाभि अभिश्यामः श्याम वृत्सुतीः पृत्सुतीर्मर्त्यानाम् मृत्यानामिति मृत्यानाम् त्वामग्ने अग्ने वाजसातमम् वाजसातमम् विप्राह वाजसातममिति वाजासातमम् विप्रावर्धन्ति वर्धन्ति रास्वसुवीर्यम् सुवीर्यमिति सुवीर सो वीर्यम् अयन्नः नो अग्निः अग्निर्वरिवः वरिवः कृणोतु कृणो त्रयम् अयम् मृधः मृधः पुरः पुर एतो एतप्रभिन्दन् प्रभिन्दन्निति प्राभिन्दन् अयम् वाचम् वाचम् जयतु जयतु वाचसादौ वाजसाताविति वाचसादौ अग्निनाग्निः अग्निः सम् समिध्यते युध्यते कविः कविर्गृहपतिः गृहपतिर्युवा गृहपतिरिति गृहापतिः युवेति युवा हव्यवाड्जुह्वास्य हव्यवाडिति ह्यावाड् जुह्वास्य इति जुहु वास्यः स्वगृम्हि ग्ने अग्ने अग्निना अग्निना विप्रः विप्रो विप्रेण विप्रेण सन् सन् सता सता सखा सख्या सख्या समिध्यसे समिध्यस उदग्ने अग्ने सुचयः सुचयस्तव तववि ज्योतिषे दि ज्योतिषा इति प्रथमकाण्डे चतुर्थः प्रश्नः